श्रीहर नम अत एक एकैकसस्ता एक कृष्णस्य पुत्रान् दशदशा बलाः अजीजनन्न अनवमान् पितुः सर्वात्मसम्भता गृहातनभकं वीक्ष्य राजपुत्रोच्युतं स्थितं प्रेष्टं स्वम् न तत्तत्त्ववितस्त्रियः सार्वजकोशवदनायत बाहुनेत्रा सप्रेम कासरसवीक्षितवल्गु जल्पैः भगवतो न मनो विजेतुं स्वैर्विभ्रमै समसकन्वनिता विभूम्नः लप्रकृतशौरतमन्त्रशौण्डैः पत्न्यस्तु षोटससहस्रमनङ्गभास् एन्द्रियं विमतितुं करणैर्नलिसेकुः इत्थं रमापतिमवाप्य पतिं स्त्रियस्तां ब्रह्मा तयोऽपि न विधुः पदवीं यधीयां भेजुर्मुधा लोकनवसङ्गमलालसाध्यं प्रद्युग्गमासनवरार्हण पादसौच ताम्बूलविश्रमणबीजनगन्थमाल्यैः केश प्रसारसयनस्नपनोपहार्यैर्दासी स तापि विभोर्वित तु स्म दास्य तासां यदशपुत्राणां कृष्णस्त्रीणां पुरोदिताः अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् चारुदेष्णसुतेष्णश्च चारुदेहश्च वीर्यवान् सुचारुश्चारुगुप्तश्च भद्रचारुस्तथा परः चारुचन्द्रो विचारुष्य चारुष्यदसमोहरेः प्रद्युम्नप्रमुखा जाता रुक्मिण्याम् नावमापितुः भानुशुभानुस्वर्भानु प्रभानुर्भानुमांस्तथा शन्द्रभानुर्बृहद् भानुर् अधिभानुस्तथाष्टमः श्रीभानुप्रधिभानुश्च सत्यभामात्मजादशन् शाम्भुमित्रपुरुजेत् सदजिश्च सहस्रजेत् विजयश्चित्रकेतुश्च वसुमान् द्रविडक्रतुः जाम्बवत्या सुता ह्येते वीरश्चन्द्रोस्वनेनश्च चित्रगुर्वे गमान्मृषः आमशङ्कुर्वसुश्रीमान् कुन्तिर्नाग्नजिते सुताः श्रुतः कविर्वृषो वीर सुभाकूर्भद्रये कलः शान्तिर्दर्शपूर्णमास कालिन्द्या सोमकोवरः प्रघोषो गात्रवान्सिंहो बलः प्रबलवूर्ध्वगः मार्द्र्यापुत्रा महाशक्तेर्सखवोजोपराजितः भृको हर्षो निलो घृत्रो शङ्क्रामजित् बृहत् जयशुभद्रो भद्राया वाम आयुश्च सत्यकः दीप्तिमांस्ताम्बरतप्द्यां रोहिण्यास्तनयो हरेः प्रद्युम्ना रुक्मवत्यां महाबलः पुत्र्यां तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे कोटिसौन्रप मातर कृष्णजातानां सहस्राणि च षोटसा राजोवाच कथं रुग्न्यपुत्राय प्राधाद्दुहितरं युधि कृष्णेन परिभूतस्तं हन्तुम् रन्ध्रं प्रतीक्षते एतदाक्याहिमे विद्वन् द्विषोर्वैवाहि हम्मितः अनागतम् अतीतं च वर्तमानम् अतीन्द्रियं विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः श्रीसुक उवाच व्रतस्वयंवरे साक्षात् अनङ्गोऽयुतस्तया राज्ञत्समेतान्निर्जित्य जकारैकरतो युधी यद्यप्यनुस्मरन्वैरं रुक्मिकृष्णाभमानितः व्यतरक्पागिनीयाय सुतां कुर्वन् स्वसुप्रियं रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली उपयेमे कन्याम् चारुमतीं किल दौहित्राया निरुद्धाय पौत्रीं रुक्मी अदधात् हरेः रोचनां भक्तवैरोपी स्वस्वप्रियचिकीर्षया जानन्न धर्मं तत्यौनम् स्नेहभासानुबन्धनः तस्मिन् अभ्युतये राजन् रुक्मिणी रामकेशवौ पुरं भोजकटं जग्मो शाम्बप्रद्युम्नखाधयः तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखान् नृपाः दृप्तास्ते रुक्मिणं प्रोचुर् लमक्षैर्विनिर्जया अनक्षज्ञो ह्ययं राजन्नपि न प्यसनमहद्युत्युक्तो बलमाहूय तेषा नैर्रुक्म्यधीव्यथा सतं सहस्रमयुतं रामस्तत्राधे तं तु रुक्मि अजयत्तत्र कालिङ्गप्राहसद्भलम् दन्तान् सन्दर्शयन् बुचेर्नामृषत् तद् ततो लक्षम् रुक्मि अगृह्णात् ग्लहं तत्राजयत् बलः जितवानकमित्याह रुक्मीकैतवमां श्रुतः मञ्जुनाक्षु पितः श्रीमान् समुद्र इव पर्वणि जात्यारुणाक्षो न्यर्भुतं ग्लहमाधते तं चापि जितवान् रामो धर्मणिलमाश्रितः रुक्मिजितं मया त्रे मे वधन्तु प्रास्निका इति तथा ब्रवीन्न भोवाणी जितो ग्लहः धर्मतो वचनेनैव रुक्मि भदति वै मृषा तामनाधृत्य वै धर्भो दुष्टराजन्यचोदितः संकर्षणं परिहसन् भभाषे कालचोदितः नैवाक्ष गोविधा यूयं गोपालावनगोचराः अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः क्रुद्धपरिकमुद्यम्य जज्ञेतं नृम्ण संसदि कलिङ्गराजन्तरसा गृहीत्वा दशमेपधे दन्दानपादयत् क्रुद्धो योगसत् अन्ये निर्भिन्नबाहुरु शिरसोरुतिरोषिताः राजो नो दु रुक्मिणीशाले नाब्रवीत् साध्वसाधु वा रुक्मिणीभलयो राजन् स्नेहभङ्गभयात् हरिः ततो निवृत्तं सकसूर्यया वरं रथं समारोप्य ययुक्कुशस्थलीम् ोजादसा सिद्धा किलार्थ मधुसूदनाश्रया श्रीमद्भागवते मकापुराणे दसमस्कते उत्तरार्ते अरुद्ध विवाह ऋक्मीधो नाम एक सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा, सद्गुरोनाथमहाराज की जै